ब्रह्माण्डपुराणं मध्यभागमध्यायं नयन् पितृकल्पः ऋषयवोचुः उत्पन्ना भवानी प्राक्सी तुया आसीदाक्षायणी पूर्वमुमा कथमजायत मेनायां पितृकन्यायां जनयञ्चैलराट् स्वयम् केवैदेपितरो नाम येषा मेनादु मानसी मैनाकश्चैव दोहित्रो दौहित्री दो च तथा ह्युमा येकपर्णा तथा चैव तथा चैवैकपाडला गङ्गा चापि सरिश्रेष्ठा सर्वासां पूर्वजा तथा सर्वमेदत्त्वयोद्धिष्ठं निर्देशं तस्य नो वद श्रोतुमिच्छामि भद्रं ते श्राद्धस्य च विधिं परं पुत्राश्च के स्मृतास्तेषां कथं च पितरस्तु कथं वादे समुत्पन्ना किं स्वर्गे वै पितरो ह्यते दे देवानामपि देवताः एवं वेदितुमिच्छामि पितॄणां स्वर्गमुत्तमं यथा च दत्तमस्माभिस्सार्धं प्रीणादि वै पितॄन् यदर्थं तेन दृश्यन्ते तत्र किं कारणं स्मृतं स्वर्गे दुःखे च वर्तन्ते पितरो नरके च के अभिसम्भाष्य पितरं पितुश्च पितरं तथा प्रपितामकं तथा चैव त्रिषु पिण्डेषु नामतः नाम्ना दत्तानि श्राद्धानि कथं गच्छन्ति वै विधृन् कथं च शक्तास्तेदादुं पुनः केच पितरो नाम जामो वयं पुनः देवा अपि पितॄन् स्वर्गे यजन्तीदिहि न श्रुतं यददिच्छामि वै श्रोतुं विस्तरेण बहुश्रुतं स्पष्टाभिधानमपि वै तद्भवान्वक्तुमर्हसि सूत उवाच अत्रवो वो कीर्तयिष्यामि यथा प्रज्ञं यथा श्रुतं मन्वन्तरेषु जायन्ते पितरो देवसूनवः अधीतानागदा श्रेष्ठा कनिष्ठा क्रमशस्तु वै देवै सार्धं पुरातीताः पितरोन्येन्दरेषु वै वर्तन्ते साम्प्रतं ये तान् वै वक्ष्यामि निश्चयाद श्राद्धक्रियां मनुश्चैषां श्राद्धदेवः प्रवर्तयेद् देवान्सृजदब्रह्मां यक्ष्यन्तीति च प्रभुः तमुत्सृज्य तदात्मानमयजं फलार्थिनः ते शाह ब्रमण मूढ़ा नष्ट संष्यथ तस्मा किंचिन्न जानीत तद लोकेशु ते भूय सर्वे प्रणतासर्वे याच पिता हम अग्रहाय लोकास्ताब्रवीत प्रभु प्रायश्चित्तं चरध्वं वै व्यभिचारो किव कृतः पुत्रान् स्वान् परिपृच्छध्वं ततो ज्ञानमवाप्स्यथ तदस्ते स्वसुतांश्चैव प्रायश्चित्त जुघृक्षवः अपृच्छन् संयदात्मानो विधिवच्च मिथः तेभ्यस्ते नियतात्मानः पुत्रा शंसुरनेकथा प्रायश्चित्तानि धर्मज्ञा वामनःकर्मजानि च ते, ते पुत्रान् अब्रुवन्प्रीता लब्धसंज्ञादिवौकसः यूयं वैपितरोस्माकं पितरोऽस्माकं यैर्वयं प्रतिबोधिताः धर्मं ज्ञानं च वैराग्यं को वरो वः प्रदीयतां पुनस्तानब्रवीद्ब्रह्मा योयं वै सत्यवादिनः तस्माद्यदुक्तं युष्माभिस्तत्तधानतदन्यथा उक्तं च पितरोऽस्माकं चेदि वै तनया स्वकाः पितरस्ते भविष्यन्ति तेभ्योऽयं वरः तेनैव वचसा ते वै ब्रह्मणः परमेष्टिनः पुत्रापिधृत्व मा जग्मुःपुत्रत्वं पितरः पुनः तस्मात् ते पितरः पुत्राः पितृत्वं तेषु तत् <Sess> एवं स्मृत्वा पितृन् पुत्राः पुत्रांश्चैव पितृंस्तथा व्याजहार पुनर्ब्रह्मा विधृन् आत्मा विवृद्धये यो ह्यनिष्ठान् पितॄन् श्राद्धे क्रियां काञ्चित् करिष्यति राक्षसा धनवश्चैव फलं प्राप्स्यन्दितस्य ैराप्यायिताश्चैव पितरः सोममव्ययम् आप्यायमाना युष्माभिर्वर्धयिष्यन्ति नित्यशः श्राद्धैराप्यायितः सोमो लोकानाप्याययिष्यति कृष्णं सपर्वतवनं जङ्गमाजङ्गमैर्वृधम् श्राद्धानि पुष्टिकामाश्च ये करिष्यन्ति मानवाः तेभ्यः पुष्टिं प्रजाश्चैव दास्यन्ति पितरः सदा श्राद्धे येभ्यः प्रदास्यन्ति त्रीन् पिण्डान्नाम गोत्रतः सर्वत्र वर्तमानास्ते पितरप्रपितामहाः केषामाप्यायिष्यन्ति श्राद्धदानेन वै प्रजाः एवमाज्ञा कृता पूर्वं ब्रह्मणा परमेष्टिना तेनैतत्सर्वधा सिद्धं दानमध्ययनं तपः ते दु ज्ञानप्रदातारः पितरो चिेते पितरो देवा देवाश्च पितरः पुनः अन्योन्यपितरोह्येते देवाश्च पितरश्चः एतद्ब्रह्मवचः श्रुत्वा सूतस्य विदिदात्मनः पप्रचुर्मुनयो भूयः सूतं तस्माद्यदुत्तरं ऋषय ऊचुः कियन्तो वै मुनिगणाः कस्मिन् काले च ते गणाः पूर्वे दुदेवप्रवरा देवानां सोमवर्धनाः सुद उवाच ये दद्वोऽहं प्रवक्ष्यामि पितृसर्गमनुत्तमं शं युः यत्पूर्वं पितरं वै बृहस्पतिम् बृहस्पतिमुपासीनं सर्वज्ञानार्थको विधं पुत्र संयुधिमं प्रश्नं पप्रविनयान्वितः कयेदेपितरो नाम कियन्तक् केचन मतः समुद्भुधा कथं च इदे पितृत्वं समुपागताः कस्माच्च पितरः पूर्वं यज्ञं पुष्णन्ति नित्यशः क्रियाश्च सर्वा वर्तन्ते श्राद्धपूर्वा महात्मनाम् कस्मै श्राद्धानि देयानि किं जदत्ते महाफलं केषु चाप्यक्षयं श्राद्धं तीर्थेषु च नदीषु च केषु सर्वमाप्तो दिश्राद्धं कृत्वा द्विजोत्तमः कश्च कालो भवेच्छ्राद्धे विधिः कश्चानुवर्तते यददिच्छामि भगवन्विस्तरेण यथा तथा व्याख्यातमानुपूर्व्येण यत्र चोदाहृतं मया बृहस्पतिरितं सम्यगेवं पृष्टो महामतिः व्याजहारानुपूर्व्येण प्रश्नं प्रश्नविदाम्बरः बृहस्पतिरुवाच कथयिष्यामि ते तादयन्मां त्वं परिपृच्छसि विनयेन यथा न्यायं गम्भीरं प्रश्नमुत्तमम् द्यौरं ऋक्षं पृथिवी नक्षत्राणि दिशस्तथा सूर्याचन्द्रमसौ चैव तथाहोरात्रमेव च नबभूवुस्तदातादतमोभूतमभूज्जगद दा ब्रह्मैको दुश्चरं तत्र तताप परमं तपः संयुस्तमब्रविद्भूयः पिदरं ब्रह्मवित्तमं सर्ववेदव्रदस्नादः सर्वज्ञानविदाम्बरः कीदृशं सर्वभूतेशस्तपस्तेपे प्रजापतिः बृहस्पतिरुवाच सर्वेषां तपसां यत्तत् तपो योगमुम ध्यादा स भगवास्तन लोका नवासृजद ज्ञाना भूतभव्या लोक वेदाश्चर्वशा मृता सृष्टा ब्रह्मणा लोकचक्षुषा लोकास्सन्तानका नाम यत्र तिष्ठन्ति भास्वराः वैराजा इति विख्याता देवानां दिवि देवताः योगेन तपसा युक्तः पूर्वमेव तदा प्रभुः देवानसृजदब्रह्मा योगयुक्तान् सनातनान् आदिदेवा इति ख्यादा महासत्वा महौजसः सर्वकामप्रदाः पूज्य देवादानवमानवैः तेषां सप्तसमाख्यादा गणास्त्रैलोक्यपूजिताः अमूर्तयस्त्रयस्तेषां चत्वारस्तु समूर्तयः उपरिष्टात्रयस्तेषां वर्तन्ते भावमूर्तयः तेषा मधस्ताद्वर्तन्ते चत्वारसूक्ष्ममूर्तयः ततो देवस्ततो भूमिरेषा लोकपरम्परा लोगे वर्षन्ति ते ह्यस्मिं तेभ्यः पर्जन्यसम्भवः अन्नं भवति वै वृष्ट्या लोकानां सम्भवस्ततः आप्याययन्ति ते यस्मात् सोमं चान्नं च योगतः ऊजुस्तान् वै पितृंस्तस्माल्लोकानां लोकसत्तमाः मनोजवाः स्वदा भक्ष्याः सर्वकामपरिष्कृताः लोभा भयो लोभमोहभयोपेदा निश्चिन्ता शोकवर्जिताः येदे योगं परित्यज्य प्राप्ता लोकान् सुदर्शनान् दिव्या पुण्या विपाप्मानो महात्मानो भवन्त्युत तदो युगसहस्रान्ते जायन्ते ब्रह्मवादिनः प्रतिलभ्य पुनर्योगं मोक्षं गच्छन्त्यमूर्तयः व्यक्ताव्यक्तं परित्यज्य महायोगबलेन च नश्यं त्युल्केव गगने क्षणाद्विद्युत्प्रभेव च उत्सृज्य देहजालानि महायोगबलेन च निराख्यो निराख्योपास्यतां याधिसरिदं सागरं यथा क्रियया गुरुपूजाभिर्यागं कुर्वन्ति यत्नतः श्राद्धे प्रीतास्ततः सोमं पितरो योगमास्थितः आप्याययन्ति योगेन त्रैलोक्यं येन जीवति तस्मात् श्राद्धानि देयानि योगानां यत्नदः सदा पितॄणां हि बलं योगो योगात् सोमः प्रवर्तते सहस्रशतविप्रान्वै भोजयेद्यावदागतान् एकस्तानपि मन्त्रज्ञः सर्वानर्हति तच्छृणो येदानेवच, च मन्त्रज्ञान् भोजयेद्यः समागतान् ये कस्तान् स्नातः कः प्रीतः सर्वानर्हति तच्छृणु मन्त्रज्ञानां सहस्रेण स्नातकानां शतेन च चा यद्भुक्तं त्रायते महादोभयात् गृहस्थानां सहस्रेण वानप्रस्तशते न च ब्रह्मचारिसहस्रेण योग एवविशिष्यते नास्तिको वाप्यधर्मो वा सङ्कीर्णस्तस्करोऽपि वा नान्यत्र दानं योगेष्वाः प्रजापतिः भिदरस्तस्य तुष्यन्ति सुवृष्ठेनैव कर्षकाः पुत्रोऽवाप्यधवापौत्रोध्यानिनं भोजयिष्यति अलाभे ध्याननिष्ठानां भोजयेद्ब्रह्मचारिणं तदलाभे उदासीनं गृहस्थमपि भोजयेद् देकपादेन वायुभक्षशतं समाहा ध्यानयोगी परस्तस्मादि ब्रह्मानुशासनम् आद्य एष गणप्रोक्तः पितॄणाममितौजसां भावयन् सर्वलोकान् स्थित एष गणः सदा प्रवक्ष्यामि सर्वानपि गणान् पुनः सन्ततिं संस्थितिं चैव भावनांच भावना चाक्रम श्री ब्रह्माडे महापुराणे वायुप्रोक् मध्यभागे तृतीय उपोत्खाद पतृकपो नाम नवम ओ